प्रवाचिका सुषमा श्री सी प्रधानमन्त्रिण नरेन्द्रमोदिन सेशंस राष्ट्रपते डेनिये अन्तोनि ड्रॉलेन् फोरे इत्यस्य च मध्ये नवदिल्ल्याम् शिष्टमण्डल स्तरीय वार्तानन्तरं षट् सन्धिपत्राणि हस्ताक्षरितानि संसद प्राकृत्कालिकं सत्रं जुलाई अष्टादशदिनात् अगस्तदशमीं यावत् प्रचलिष्यति मुम्बय्याम् अतिवर्षाभि जनजीवनं प्रभावितं वर्तत सत्र ह्य प्रभृति जायमानाभि वर्षाभि बहुष् क्षेत्रेष् अभवत् येन स्थानीय रेलसेवा बाधिता नाइजीरियाया मध्यवर्ति राज्यते कृषक पश्पालकानां मध्ये संघर्षे न्यूना न्यूनं षडशीति जना भारत सेशल्स देशौ शिक्षा अन्तर्जाल सुरक्षा सांस्कृतिक आदान समेत्य षड् सन्धिपत्राणि हस्ताक्षरितवन्तौ प्रधानमन्त्रिण नरेन्द्रमोदिन सेशल्स राष्ट्रपते डैनिय अंतोइन रोलेन फॉरे इत्यस्य च मध्ये नवदिल्ल्याम् अद्य शिष्टमण्डल स्तरीय वार्तानन्तरं एतानि सन्धिपत्राणि हस्ताक्षरितानि सन्ति प्रतिरक्षा सुरक्षा क्षत्रयो सहयोगं विवर्धित् विशेषतया समीक्षा कृता सशल्स राष्ट्रपतिना आदौ विदेशमन्त्री सुषमा स्वराज मिलितवती। संसद संसद प्रागटकालिकं सत्रं जुलाई अष्टादश दिनात् अगस्तदशमीं यावत् प्रचलिष्यत संसदीय कार्यमन्त्रिणा अनन्त कुमार यत् सत्रेडस्मिन् सर्वमाहत्य अष्टादश कार्यदिवसा भविष्यन्ति आशास्यत यत् प्रशासनेन अन्य पश्चिवर्ति जनभ्य राष्ट्रिय आयोगं संवैधानिकं स्थानं प्रदात् विधि निर्मास्यताम्बई मुम्बय्यां अतिवर्षाभि जनजीवनं प्रभावितं वर्तत तय तत्र हय प्रभृति जायमानाभि वर्षाभि बहुष् क्षेत्रष् जलप्लावनम् अभवत् बृहन्मुम्बई महानगरपालिकाया आपद प्रबन्धन विभागेन कथितं यत् गतसायंकाले वृक्षापपातनेन दक्षिण मुम्बय्यां जनौ मृतौ थाणे जनपदे च भित्तिका अवपातनात् त्रयोदश वर्षीय बालकोऽपि मृत उपराष्ट्रपति उपराष्ट्रपतिना एम वेंकैया नायड्ना भणितं यत् सहयोगिता संस्थाभि कृषिकार्य स्थायि लाभप्रदं कर्त् शक्यते असौ अद्य नवदिल्ल्यां भारतीय राष्ट्रिय सहयोगिता संघद्वारा समायोजिते नवदशे वैक् भाई मेहता स्मृति व्याख्यान अभिभाषत तेन तणितं यत् सहयोगिता संस्थानानां नगर ग्रामीण क्षत्रयो विभाजकं महत्वपूर्ण भूमिका वर्तता त्रि चत्वारिंशत् वर्षाणि पूर्वमद्यैव तत्कालीन प्रधानमन्त्रिणा इन्दिरा गान्धिना अशेष दर्ष आन्तरिक आपत्कालं प्रवर्तितमासीत् जलि जनानां स्वतन्त्रता अधिकारा अवरूद्धा लक्षाधिका जना कारागारेष् निक्षिप्ता अवसरेऽस्मिन् केन्द्रीयमन्त्रिणा अरूणजेटलिना प्रोक्तं यत् आपत्स्थितौ देशे भय आतंकमय वातावरणं विनिर्मितम् राजनीतिक गतिविधयश्च स्थगिता आपत्कालं स्मृत्वा श्रीजेटलिना भणितं यत् तदा विपक्षिदलानां कार्यकर्तार राष्ट्रिय स्वयंसेवक संघस्य सदस्याश्च लक्ष्यीभूता जनसंचार माध्यमानि अपि आतंकितानि कांग्रेसदलस्य वार्तापत्रे नेशनल हैरॉल्ड इत्यस्य इत्यत्र टिप्पणी कृता यत् भारतं एकदलीय शासनं प्रति अग्रेसरति नाइजीरियायाया मध्यवर्ति राज्ये कृषक पश्पालकानां मध्ये संघर्षे न्यूनान्यूनं षडशीतिजना मृता वार्तानुसारेण संघर्ष गुरूवासरे तदारब्ध यदा जातिवादि बैरोम कृषकै पञ्चफुलानि पश्पालका प्रतिशोधाक्रमणेष् अन्ये नृता राज्यस्य आरक्षि आयुक्तानुसारेण संघर्षेऽस्मिन् षड् जना व्रणिता सन्ति भारतस्य दीपिका कुमार्या विश्व चषक शर सन्धान प्रतियोगिताया तृतीय महिलानां रिकर्व प्रतिस्पर्धायां स्वर्णपदकं विजितम दीपिकया मिशेल क्रॉपेन सप्त त्रि अंकै पराभूता